हरि ओम् श्री सीतारामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकि रामायणे होध्याकाण्डे चतुर्विंशः सर्गः विलपन्त्या कौसल्याय आत्मानम् वनं नेतुं श्रीरामम् प्रत्याग्रह पत्युः सेवैव नारीणां धर्मैति इति प्रतिपाद्य श्रीरामेण तस्य निवारणं स्वकीय वनगमने तस्यानुमति ग्रहणं च तान् समीक्ष्य व्यवसितम् पितुर्निदेशपालने कौसल्या बाष्पसमृद्धः वचो धर्मे क्षमब्रवीत् अदृष्ट दुःखो धर्मात्मा सर्वभूतप्रियं वदतु दशरथः कथं मुञ्चे न वर्तयेत् यस्य भृत्याश्च दासाश्च मृष्टान्यन्नानि भुञ्जते कथं स भोक्षते वने भूले फलान्ययम् क एत श्रद्धे श्रुत्वा कस्य वा न भवेद्वयम् गुणवान्दयितो राज्ञ काकुत्थो यद्विवासते नूनम् तु बलवान् लोके उतान्त सर्वम् लोके रामाभिराम त्वम् वनम् यत्र गमिष्यसि अयम् तु माम् तव दर्शनमारुतः विलाप दुःख समिधो रुदिता सुहुताहुति चिन्ता वाष्पमहाधूम तवागमन चिन्तय पुत्र निश्वासाय सम्भव त्वया विहीनाम् इह त्वाम् इह मां चित्र भानुम्ये कथम ही धेनु संवत्म गुगछति अहम साष्यामी ये यहां मात्र तद्वाक्यं पुरीज भुवा रामो ब्रवीद्वाक्यम मातर भृशदुखिता कैकय्या कै वंचित राज मयि शारण्यमाश्रिते भवत्या च परित्यक्तो न नूनं वर्तयिष्यति भक्तो की परित्यागो दृशं स केवलं स्त्रियः स भवत्या न कर्तव्यो मनसापि विगर्हितः यावत् जीवति काकुत्स्थ पिता मे जगति पतिः शुश्रूषा क्रियतां स धर्म धर्मः सनातनः एव गुप्तः सुरामेण कौसल्या शुभदर्शन तथे शिवा च सुप्रीता रामम् अक्लिष्टकारिणम् एवम् मुक्तास्तु वचनं रामो धर्मभृताम्बरः भूयस्ताम्बुरवीद्वाक्यम् मातरम् भृशदुःखितां मया चैव भवत्या कर्तव्यं वचनं पितुः राजा भर्त गुरु सर्वेषामीश्वर प्रभु इमानि तु महारण्ये विरुच्य नव पञ्चश वर्षाणि परमप्रीत्या स्थास्यामि वचने तव एवम् उक्तः प्रियम् पुत्रं बाष्पूर्णा न तदा उवाचे कौसल्या श्रुतवत्सलाय आसां रामसपत्नीनां वस्तुम् मध्ये न नयमाम् अपिका काकुत्स्थ वनम् अन्याम् मृगीमिव यदि ते गमने बुद्धिः कृता पीतोरपेक्षय तां तथा दिलीं रामो हृदन् वचनमब्रवीत् जीवन्त्या हि भर्ताय दैवतं प्रभुरेव म चय प्रभवति प्रभु नाथ व्यम राजोकनाथ नीमता भरते चा धर्मात्म सर्वूत प्रियवीतेत धर्म रथस यहां तो निक्रांति पुत्र शोक न, न पार्थिव वाप्नुयात् किञ्चित् अप्रमत्तः तथा कुरु दारुणश्चाप्ययं शोको यथैनं न विनाशयेत् राज्ञो वृद्धश्च सततं हितं च र समाहित व्रतोपवासनिरता या नारी परमोत्तमा भारं नानुवर्तेत ताचे पापगतिर्भवेत् भक्तुः शुश्रूषया नारी लभते सर्गमोत्तम अपिया निवृत्त देश पूजन शुश्रूषावत भर्तु प्रिय नित्यो, धर्म सेमता अग्नि कार्य शुचित सुमनो सो देवता, पूजा देवी ब्राह्मणा चैव सत्कृतः एवं कालं प्रतीक्षस्व मम गमनकाङ्किणी नियत नियता हर भवतु शुश्रूषणे रतः प्राप्स्यते परमं कामम् मयि पर्यागते सति यदि धर्मभृतां श्रेष्ठौ धारयिष्यति जीवितम् एवम् उक्ता तु रामेण बाष्पर्याय कुलेक्षणाय कौसल्या पुत्रशोकाता रामब्रवीत् गमने सुकृताम बुद्धिं न पुत्रक शक्नोमि पुत्र विनिवर्तयितुं नूनं कालो दुरत्यय गच्छ पुत्र त्वमेकाग्रो भद्रं ते तु सदा विभो पुनस्त्वयि निवृत्ते भविष्यामि गत क्लम प्रत्यागते महाभागे कृताफे चरितव्रते पितुरान् नृण्यताम् प्राप्ते सपिष्ये परमम् सुखम् कृतान्तस्य गतिपुत्र दुर्वीभाव्या सदभुवि यस्तां संचोदयति मे वचे अविद्धिराघवे गच्छेदानीम् क्षेमेण पुनरागतः नन्दयिष्यति मां पुत्र साम्ना लक्ष्मेन चारुणां सकालस्यात् वनात्पत्यागतम् पुनह। यत्ताम् पुत्रकपश्येयम् जटा वल्कलधारिणम् तया हि रामम् वनवास निश्चितम् ददश देवी परमेण चेतसा च रामम् शुभलक्षणं वचो बभूवच स्वस्थनाभिकाङ्क्षिणी इत्याशि श्रीमद् रामायणे वाल्मीकि अधिकव्यखण्डे